अहं स्वर्गाय वा एतानि लोकाय भूयन्त्रे यद्दाक्षिणानि द्वाभ्याङ्गारुकवत्येजो यद्दिपानप्रदक्षित्राप्यन्तरिक्षये वा प्रमदेशतोभ्ये ऋजुवर्गमेवैरम् लोकङ्कमयति सौरेभ्या विभ्याङ्गारुकमत्येजोत्यमेवैरम् लोककुम् समारोहयति नयवत्यर्चाज्ञेभ्ये जुहो ऋजुवर्गस्य लोकस्याभिने ङ्गः पदे भगवद्गृह्णादितमर्गमेवैनं लोकङ्गमयतिरूपेण वा रूपमभ्यैवेत्याेन तथो वा विश्ववेदा विभजत् वेत्याह तथोहस्तवै विश्ववेदा देवोदाक्षिणा विभजते देवैना विभजत्य सोमश्चु समित्याह सोमश्चु्यश्च रा त्याहृतस्य पथािणा इत्याह सत्यम् वार्तकं सत्येनैवेनाहृतेन यज्ञस्य पथायन्ते नित्याह यज्ञस्य क्येताः पथायन्ति यद्दक्षिणा ब्राह्मण मध्यराध्यातमृमायमित्याहैवे ब्राह्मणीनाश्रुवान् तस्मादेव माहविषु भक्प श्रव्यक्षमित्याहनुवर्गमेवेन लवकङ्गमय गच्छत मधुमते प्रदाता नेत्याहवय प्रदातार मधुमते रारण्यं ददातिरमे हिरण्यं ज्योतिरेव पुनष्टवर्गस्य लोकस्यानुत्याग्निधे ददात्यग्निमुखानेवन् प्रेणादि ब्रह्मणे ददादि प्रसो येहोत्रे ददात्यात्मा भात्नमे यक्षि संवर्धय अमिष्टै योगुं षुजुहोति यज्ञस्य समिष्टे यद्वै यज्ञस्य क्रोध यद्विष्टै यदत्तेयन्नात्येरि यदधिकरोयन्नापि करोदे प्रेणादिनवजुभो दिनमे पुरुषे प्राणाः पुरुषेण यज्ञः संमितो यावादेव यज्ञस्त्वम् प्रेणादिनविजुभो दिनद्वातूणेव प्रेणादित्रेण यजोगुङ्त्रे जिमे लोकाजिमादेव लोकान् प्रेणादे यज्ञम् गच्छ यज्ञपदिम् गच्छे त्याह यज्ञपति वेमेन गमयति स्वा यो लिङ्गच्चेत्याः स्वा वेमेन यो लिङ्गमयत्यै हृदे यज्ञो यज्ञपदे नोगस्वेन यत्याह यजमानरेव वेर्यम् दधादि वा रुष्ठो हतात्यहव्यो देवभागम् प्रच्छगत्सञ्जराद्बहु याजिनो येजो निज्ञैयज्ञम् प्रचतिष्ठिवा यज्ञपदा यानय प्रतिष्ठाप्याजम्सा दो गात ये यतिपय यजमा परा अवपृथयदेवार्वाजेनमे कहाय नाजय नो जनदेवतैरवयज देवोम प्रथमवेणः साक्षादेव रक्षागुं तजि सागुं सन्ति भवे रक्षोहा रक्षता वहत्येत्यन्निधनमुत्रै लोकायेभ्यदेव लोकेभ्यो रक्षागस्य वहन्ति पुरुष पुरुषो निधनमु क्षराजा वरुणश्चकारेत्याह प्रमित्याहेणजमेवास्मैता पादृत्याह वरुणपाभिजुभोक्त्याहुदीश्व प्रजा मेबलिः प्रजादेव वरुणपाशान्मुञ्जत्याज्यभागो यजति यज्ञस्यैव दक्ष न्तरे वरुणैवर्णपाशादेवैनं मुञ्चत्यज्ञे वरुणौ यजदिसाक्षादेवेयं वरुणपाशान्मुञ्चत्यभवर्गावनो याजो यजलि प्रजा ये वर्षप्रजा एव वरुणपाशान्मुञ्चदि गगुणप्रजाजालय जद्वावनो याजो सम्पद्यन्ते षड्वाजतवर्जस्येव प्रजत्यमेव वरुणमवयजते समुद्रे ते सुन्दरित्या न्तोषधेतापैत्याहाै नोषधे तथा देवीरापदेशित्याह यथा यजुरेवेदपशभो वै सोमो यद्धिन्दूनां भक्षयेत्पशुमान् स्याद्वरुणस्त्वेन गृह्णे याद्यन्नभक्तये च पशुस्यान्वेन वरुणा गृह्णे यादुभक्स्येवणागृह्णादिप्रजयतो वरुणस्य पादनित्याह वरुणपाशादेव जन्मुच्च यन्त्यवरुणश्चाञ्चलहेत्याय तेजदेवहेत्याहत विधेवाप्यन्नपस्यन्तमुपारन्त्य तेजो ते गोमभिधेहेत्याह तेजदेवात्मन्धत्ते श्रेण वेदि मध्यञ्जलसाक्षेण विना यदमेवत्येदन्तर्वेद विनयाद्भिजयेत्यत्रेदि मनुष्यलोकम्भया लोकया अभिजत्या उपनसंविधां विनया पुनर्लोककामस्य संहितां मनुष्यलोककामस्य निधानसंहितामिन्द्रियकामस्य सर्वान् समाम् मध्यमास्तान् समान् पशुकामस्यैतान् वानुपशव उपलक्षन्ते पशुमानरान् कामगेन प्रमालकस्याजतिकर्त्रमिदन्त्यस्य विनजागत्तरार्भ्यं वरिषष्ठमसकदी राघं समेकामेरस्यैवं विनादिता प्रवीयते दक्षिणार्ध्यं वरिषष्ठं विनजामस्यासक्की रागुं समाक्रमणमेव कुरुदे वर्गस्य लोकस्य नमष्टे यदेकस्मिन् योगे द्वे दशने परिवेरितस्तादेव द्वे जाले विन्दते यन्नैका गुरश परिवेदितस्मान्नैका भौपदे विन्दते यङ्कामगे दस्तस्य देवान् दक्षिणतपालयन्तान् देवा उपशदेनैवापालन्तोपशयत्नै यद् दक्षिणतमुपशरवपशे प्रादुर्जापनत्ये सर्वे वा अन्ये नोपाशुपन्तोऽ वा पशुस्तस्य यजमानः पशुर्यन्न निर्दिषेदात्युवार्थोऽसौ पशुरिनिर्दिशेत्यं दिश्याद्यमेव नमस्ते पशुर्निर्दिश देति ्राम्यान् प्रचोरभिरस्थिरारण्यान् प्रजाभरप्रजादशदशोः नाद्येनव्यामेकादश नेमवश्यक्तया वेशोऽहं नाद्यमवारुन्धय दशयो भवन्ति कला विराडन्नं विरा विराजैवान्नाद्यमवरुन्धयेकादशस्तरदेवाश्रेशदुभदेवैदान्ते नवग्रोवा एषा सम्मीयते यदेकादशदेशेश्वरः पुरस्ताः प्रत्यञ्जै यज्ञ संवर्धि विनाद यत्युक्क प्रजापते प्रजादर्शदसरिता नो मन्यत सरेतावैकादशदेव पश्यत्तया वेतायरिन्द्रियं वेर्यमात्मन्न सत्त प्रजाय भगनुवासृजते यो युजते सरेतरे चारदेवैकादशी भवत्याजदेवदयेन्द्रियं वेर्यैयजमान आत्मन् सत्ते प्रेमाग्नेयेन पापै दुं सारस्वत्यागभवदेतसौम्येन तथा च प्रजनय पौष्पेण वाय ै देवानां बृहस्पति ब्रह्मणैवास्मै प्रजा प्रजलयति वैश्वदेवो भवति वैश्वदेव्यो वै प्रजा प्रजा एवास्मै प्रजनयतीन्द्रियमेवैन्देनावरुन्धे विषम्मारुतेणोजो बलभेन्द्राग्ने प्रधवायधा वित्रो े तथा पुरस्तादैन्द्रस्य ऐश्वरे मानभदे ऐश्वरे मम्बान्नमन्नमेव पुरस्ता पुरस्तादन्नमद्यत ऐन्द्रमानभ्यमारुतमानभदेवास्वानुबध्नादि कामगेतयोवगत स्वोपरुध्यता योऽपरुद्ध स्वोऽपगच्छत्वित्तेन्द्रस्य लोके वरुणमानभेदवारुणस्य लोक ऐन्द्रयवावगत स्वोपरुध्यते योपरुद्धस्व गच्छति यदि कामगेद प्रजापक्ये युगतिमिषोन्विचरये प्रजाय मोहयते यदभिवा हतोपाम् वारुणमानभेद प्रजा वरुणोविन्दीया दक्षिणध उदञ्च मानभदेव इन्द्रः पत्न्यामनुवजादकर्ताम् पर्यज्ञकृता मृतकर्तया मनुरार्ध्वा यत्पर्यज्ञकृतम् पार्थे मदमुत्सृतिर्यामेव मनुरुद्धिमार्ध्वा तामेव यदमानरुद्धोति यज्ञस्य वा प्रतिष्ठिता यज्ञः परा भवति यज्ञम् परा भवन्त यजमाना न प्रजरत्यसो एतस्यैवस्य गामस्त्वाट्टाभव चित्तष्टामेस्य रूपाणि विकरोति तमेव रूपाणि विकरोति घन्ति वा ने तत्सौमञ्जभि शृण्वन्ति यत्सौम्यो भवति सा भृतायानुत्तरणे भ्रन्ति तादृगेव तद्यदुत्तरार्थे वायाद्देवताभ्यः स्रमदन् तद्ग्राद् दक्षिणाग्रेजुः तेषामेव दृणाम् दिक्स्वायामेव मित्रे निरवदेव ग्रादिव्याहरन्ति कामदेव्यो वै सहम्यो दिदेवताम् नक्षम् वच् कुर्वन्ति तदसेवरवे ेव आत्मानम् न परिपश्च जदादस्यामिम् कृत्वा वेः श्वेतस्मिन् परिपश्च आत्मानमेव पवलेनो गतमना स्यात्सो वेः क्षेतजम् मनः परागतम् अपरागतम् ज्ञा सोमेन तद्वयमस्मासु धारणाभेति मनदेवात्मन्दाधारणगतमनाभवत्य पवेदीयज्ञक्रामतेष्णव्यच्चा कृतस्य यत्यज्ञः सर्वा देवताविष्टज्ञो देवताः चैव यज्ञञ्च साधारो पागुंसेजमिदत्ताय ब्रह्मवादिना वदन्ति मित्रो यज्ञस्य स्विष्टै युवते मरुणो दुरिष्टैप यज्ञक्व यजमानो भवतीयन् ये वरुणे वशामालभरे मित्रेणैवज्ञस्य स्विष्टगुं समगतिवरुणेष्टन्च्छरीनवा नो रथा वेदाङ्गने नोर्वराहं प्रभिन्दं देव वृत्सावेज्यं प्रभृन्दो यन्मेः प्रावरुणे भजा मालभरेज्ञानेव प्रभिन्दाय भक्त्यमन्दवाः सरिशान्ते जातगा मा निवायतस्य छन्दागुं द्विजयी जानच्छन्दसाद्वशा यन्मेः प्रावरुणे शा मानवदेशन्द्राजस्येव पुनरा प्रीणा च यातया मत्पाया इन्द्रियम् वीर्या अव्यभयन्तशिष्यतदृग्राक्याभवन्तर निग्राक्या नामदिग्राह्यत्वञ यत निग्राह्या दृश्यन्द्र इन्द्रियमेव तद् वीर्यम् यजमानात्मन्धत्त्वेतेजहाग्नेन्द्रियमेन्द्रेण ब्रह्मवर्तसकं सौर्येणोपस्तम्भरम्बायज्ञस्य यतदिग्राख्याश्चक्रे पृष्ठानि यत्पृष्ठेन गृह्ने यज्ञम् पृष्ठा न स गौशले गर्ववृक्षे गृह्णीया प्रत्यधिग्राह्या सौशले गर्वपृष्ठहेतव्या यज्ञस्य सर्वे ज्ञाय प्रजापतिर्देवेभ्यो यज्ञानि सत्सप्रियास्तनोरपन्यसत्तग्राह्या अभवन्वितनुस्त यज्ञैत्यादिग्राह्या न कृष्ण्यगृष्टो वे गृहेतव्या ैरादन्तानव्यावृतमगच्छन्ते देवागेतगेताङ्ग्रहा न पश्यन्ता न गृह्णताग्नेयैन्द्रविन्दः सौर्यगुंसौर्यस्ततो वैतेन्याभिर्देवताभि्यावृतमगच्छति यस्तेवम् विदुरगेदे ग्रहायच्छन्तेः व्यावृतमेव पात्मना भादुर्येण गच्छति मे लोका ज्योतिष्मन्तः समावद्वीर्या आर्या इत्याहुराग्नेनास्मिन् लोके योजद्धत्त ऐन्द्रेणान्तरिक्ष इन्द्रमाजो हि सयुजौ सौर्येनामस्मिल्लव्ये धत्ते ज्योज्मन्तोऽस्माकाः भवन्ति समावद्वयथापवित्तान्ताोकाः पराहं चार्वाञश्चप्राभुर्यस्यैवं वितरतेष्यन्ते प्रास्पादि मे लोकाः पराहं चार्व antastabante देवा वे यज्ञे कुर्वदुरा कुर्वद ते देवादाभ्ये छन्दागुन्दनाडिमुस्थापयन्तो देवाभवन्परा सुरायस्तेवं विजुदोराभ्यो दृश्यते भवत्यात्मनापरास्यभ्यादुर्व्या भवदे द्वे देवासुरामदा भ्रणाभ्रुवन्त्वदाभ्यस्यादाभ्यत्वय्यदेवं वेदुदभ्रात्येव भ्रातुर्यन्नैनं भ्रातुर्योदभ्रात्येवाजापते स्य ग्रन्थादिपात्मानम् एवं वेदघ्नन्ति वा एतत् सोमज्ञर विरुण्वन्ति सोमे हन्यमानेष्णो हन्यते यज्ञैजमानो ब्रह्मवादिनो वदन्ति किं तत् यज्ञेयमानकुरुते येन जीवन् स्वर्गं लोकमेते इति जीवग्रहो वा एष यदाभ्योरभिदस्य गृह्णादि जीवन्तमेवेनकं स्वर्गं लोकं गम विवाहेन यज्ञम् चिन्तन्तेन दाहाव्यलग्नस्थापयन्त कुंशोऽनपि भृजुः सदम् लत्यये देवावे प्रवाहुग्रहाण गृह्णस्तनेतम् प्रजापतिरंसुश्चेदात्येव सगतभिडदस्य गृह्णा सृद्धिसदेना गह्णाति मनैव हि प्रजापति प्रजापतेनात्या औदुम्बरेण गृह्णाय जोर्गादुम्बरमूर्जवेन्ध्य चतुस्वक्तिभवतिष्ठदयो वांशोरायधनम् वेदायधनवान् भवति वा देव्यमिति यामदत्वा अस्यायधनं मनसा गायमाना गृह्णा गाय धनवादेव भवति यतध्वर्य रघुंशं गृह्णन्नाद्धयेभ्याम् अध्येताध्वर्यमेतमानाय चैतद्धनेभ्यामध्येतानवानं गृह्णाय सैवा हिरण्यमृत्यं हिरण्यमाय प्राणाय अहं प्रजापदेवेभ्यो यज्ञाङ्गासरिलमक्षिदत्तक्षोडश भवन्न वे षोडशीरामयज्ञापोडशज्ञस्तोत्रगुं षोडशगुंश्रं चैलषोडशीरुक्षोडशिरषोडश त्वय्यक्षोडशी निश्च इन्द्रियमेवर्यमान आत्मम् भक्ते देव भो वै सुवर्गो लोको न भवत्तमेतगुं षोडशिनमश्यन्तम ग्रन्थो लोकोडशी गृह्यते च वर्गस्य लोकस्याभिजित्या इन्द्रो वे देवाना बालुदावलहास्मादेतगुं षोडशिनं प्रायच्छत्तमग्रन्थे ततो वै सोऽग्रं देवतानां विदुनश्रोडशी गृह्यते अग्रमे वसमानादि ेषो न जीव ग्रहप्रातस्य पदग्रस्वा देवेन निर्गृह्णाचे गृह्णा जतवना सवना देवेन प्रजनयतमस्य गृह्णीरात्मग्रो वेशोयलमनात्मजो नोच्च वदावै मनवसात्मजामस्य गृह्णेदात्मद्रो स्मे पशुरवरुध्यरात्रप्रज्ञष्टो वे राजन्यश्च गृह्णेरावृत्ता बोहिराजन्जो यजदेशान्धरे वा स्मै वज्रं गृह्णाचारिन्द्रे निर्वादहत्यैकविकं शक्यं भवति प्रयष्टेत्य इन्द्रश्च प्रयन्धावोपानोदिकनीगुं शिवै देवेन्दा सञ्जागश्च देवा करीयता छन्दसाज्यायच्छन्दोभिव्यजगम् सन्ततो वेदे दुराणा लोकमवृञ्जतय करीयता छन्दसाज्यायच्छन्दोभिव्यजगम् कलब्दातुर्योकम् वृङ्केण अक्षराण्यतिवेदयन्ति षट्वादि तव ऋतो प्रीणानि चत्वारि पूर्वाण्यम्बयन् दुष्पदेव पशूनवरुन्धे देवुत्तरे द्विपदरेवावरुन्धे लट्टभाविदम् पालयन्ति भागवा मासमजाविषिते सोच्चे षोडशिलस्तोत्र विपाकः एतस्मिन् वे लोक साक्षादे मित्रमहम् साक्षादेव ब्रह्मभ्यादुर्व्याजप्रहस्तरुणपि शङ्गो स्वदक्षिणैतद्वैव जस्य रूपकम् समृद्ध्यये ओष्ठकाण्डः समाप्तः